आदू न गणेशसूक्तम् ऋग्वेदम् आदू न इन्द्रक्षुमन्तञ्चित्रं ग्राभं सङ्गृभाय महाहस्ति दक्षिणेन वित्माहि त्वा तुविकोर्मिन् तुविदेष्णन्तुविमाखम् तुविमात्रमवोभिः नहि त्वा शूरदेवानमर्ता सो भीमन्नगां भीमन्न गां वारयन्ते येथोन्विन्द्रंस्तवामेषानं वस्व स्वराजम् न राधसमर्धिषन्नः प्रस्तोषदुपगासिष्रवत्सम गीयमानम् अभिराधसा जुगुरद आनो भरदक्षिणेनाभिसव्येन प्रमृश इन्द्रमानो वसो निर्भाक उपक्रमस्वभरधृषदा धृष्णो जनानाम् अदाशुष्टरस्य वेदः इन्द्रय उनुदे अस्ति वाजो विप्रेभिः अस्माभिः सुतं सनुहि सद्यो जुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः वशैश्चमक्षो जारन्ते गणानान्त्वा गणपादिं हवामहे कविं कविनामोपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पद आनशृण्वन्यो दिभिश्चेदसादनम् निषुष्येदगणपदे गणेषु त्वामाहुर्विप्रथमं कवीनाम् न हृदे त्वत्क्रियते किञ्च नारे महामर्कं मा कवञ्चित्रमर्च सखे बोधिवासुपते सखीनां रणं कृधि रणकृत्सत्यशुष्मा भक्ते चिदा भजाये अस्मान् ॐ शान्ति शान्तिः